गरुडपुराणम् आचारकाण्डम् अध्यायम् नैन्टीन् सूद उवाच प्राणेश्वरम् गारुडं च शिवोक्तम् प्रवदाम्यहं स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति चिदा वल्मीकशैलादौ कपे च दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति षष्ट्यां च कर्कडे मेषे मूलाश्लेषामकादिषु कक्षाश्रोणिगले सन्धौ सङ्गकर्णो दरादिषु दण्डीशस्त्रधरोभिक्षु नग्नाधिकालदूतकः बाहौ च वक्रे ग्रीवायाम् ष्ट्रायां न हि जीवति पूर्वम् दिनपदिर्भुङ्कृते अर्धयामम् तदोपरि शेषा ग्रहा प्रतिदिनम् षट्सङ्ख्या परिवर्तनैः नागभोगक्रमाज्ञे यो रात्रौ बाणविवर्तनैः शेषोर्कपणि पश्चन्द्रस्तक्षको भौम ईरिदः कर्कोडोज्ञो गुरुपत्मो पद्मो महा पद्मश्च भार्गवः शङ्कः शनैश्चरो राहु कुलिकश्च हयो ग्रहाः दिवा सुरगुरोर्भागे स्यादमरान्तकः पङ्गोकाले दिवा कुलिगेन सहस्तिदः यामार्धसन्धिसंस्थां च वेलाम् कालवदीम् चरेद बाणद्विषड्वह्नि वाजियुगभूरेकभागतः दिवा षड्वे दनेत्रादिपञ्चत्रिमानुशांशकैः पादाङ्गुष्ठे पादपृष्टे पादपृष्टे पादा पादा गुल्फे जानुनि दिङ्के नाभौ हृदिष्टनतडे नाभौ हृदिस्तनतडे कण्ठेना सा पुडेक्षिणि कर्णयोश्च भ्रुवो शङ्घे मस्तके प्रतिपत्क्रमाद तिष्ठचन्द्रश्च जीवे च पुंसो दक्षिणभागके कायस्य वामभागे दुस्त्रिया वायुवसात्कराद अमृत तत्कृतो मोहो निवर्तेत जमर्दनाद परमं बीजम् हंसाख्यम् स्पटिकामलम् ज्ञातव्यम् विषपापग्नम् बीजम् तस्य चतुर्विधम् विन्दुपञ्चस्वरयुधमाद्यमुक्तम् द्विदीयकम् षष्ठारूढम् तृतीयम् स्यात् सविसर्गम् चतुर्धकम् कुरु कुन्दे स्वाहा विद्यात्रैलोक्यरक्षार्थं गरुडेन धृता पुरा वधेप्सुर्नागनागानां मुखेद प्रणवं न्यसेद गले कुरु न्यसे धीमान् कुले च गुल्फयो स्मृदः स्वाहा पादयुगे चैवयुगान्यास ईरितः गृहे विलिखिता यत्र तन्नागाः सम् त्यजन्ति च तो जप्त्वा तु कर्णे सूत्रम् धृतम् तथा यद्गृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तद् सप्तलक्षस्य जप्याब्धिसिद्धिप्राप्ता सुरासुरैः ॐ सुवर्णरेखे कुक्कुडविग्रहरूपिणि स्वाहा एवञ्चाष्ठदले पद्मे दले, दले वर्णयुगं लिखेत नाम एतद्वारिधाराभिस्नादो दष्टो ॐ पक्षि स्वाहा अङ्कुष्टादिकनिष्ठान्तं करेण्यस्याध कृ हृदि लिङ्गे जपादयो गरुडस्य हि नाक्रामन्ति च स्वप्ने विविषपन्नगाः यस्तु लक्षम् जपेच्यास्या स दृष्ट्वा नाशये द्विषम् ॐ ह्रीं ह्रौं ह्रीं भिरुन्धायै स्वाह कर्णे जप्ता विद्या दष्टकस्य विषंहरेद अ अन्यसेतु पादाग्रे इ ई गुलफेथ जानुनि उ कडितडे ओ नाभौ हृदि औ न्यसेद वक्रे अमुत्तमाङ्गे अह न्यसेद्वै हंससंयुधाः हंसो विषादिजहरे ोध्यादोधपूजितः गरुडोकमिति ध्यात्वा कुर्याद्विषहरान् क्रियाम् हं मन्त्रम् गात्र विन्यस्तम् विशादिहरमीजितम् न्यस्य हंसं वामकरेण सा मुखनिरोधकृत मन्त्रोहरे दष्टकस्य त्वम् मांसादिगदम् विषम् स वायुना समाकृष्ट्य दष्टानां करलं हरेद तनौन्यस्य दष्टकस्य नीलकण्ठादिसंस्मरेद पीदम् प्रत्यङ्गिरा मूलम् तण्डुल्लद्भिर्विशापहम् पुनर्न वाफलिनीनाम् मूलम् वक्रजमीदृश्यम् मूलम् शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् अभिर्घिष्टकृतोपेदले पोयम् विषमर्दनः विषमृद्धिं न व्रजे च उष्णं पिबदि यो हृदं पञ्चाङ्गं तु शिरीर्षस्य मूलम् गृञ्जनजं तथा सर्वाङ्गले पानाद्वा विषहृद्भवेद हृं गोन स्वादिविषहृद हृल्ललाडविसर्गान्तम् ध्यादम् वश्या, न्यस्तम् यौनौ वशेत् कन्याम् कुर्यान् मदजलाविलम् जत्वा सप्ताष्टसाहस्रम् गरुत्मानिव सर्वः कविस्याच्छ्रुतिधरी च वश्यास्त्रीश्चायुराप्नुयाद विषकृत्स्यात्कथा तद्वन्मनिर्व्यास स्मृतो ध्रुवम् इति श्रीकारुडे महापुराणे आचार्यकाण्डे सर्प विषपरोपाय निरूपणं नामैकोनविंशोऽध्यायः ओम्